नाक्रामन्त यदा शाप बाणामुक्ता शिलास्वि वा व्यद्रवन्तद्विजातयः पृथिव्यां ये तपःसिद्धा तयोर्भयाद् दुद्रुवुस्ते वैनतेयादिवोरगाः मथितैराश्रमैर्भग्नैर्विकीर्णकलश्रुवैः शून्यमासि जगत् सर्वम् कालेनेवहतम् तदा ततो राजन्न दृश्यद्भिर्ृषिभिश्च महासुरौ उभव विनिश्चयम् कृत्वा विकुर्वातेऽवधैषिणौ प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ संलीनमपि दुर्गेषु निन्यतुर्यमसादनम् सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ तैस्तैरुपायैस्तौ क्रूरा वृषीम् दृष्ट्वा निवृत्तयज्ञस्वाध्याया प्रणष्टनृपतिद्विजा उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा निवृत्तविपणापणा निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा अस्थिकङ्कालसङ्कीर्ण भूर्बभूवोऽग्रदर्शन निवृत्तपितृकार्यम् च निर्वषट्कारमङ्गलम् जगत्प्रतिभयाकारम् दुष्प्रेक्ष्यमभवत्तदा चन्द्रादित्यौ ग्रहस्तार नक्षत्राणि दिवौकसः जग्मुर्विषादम् तत्कर्म दृष्ट्वा सुन्दोपसुन्दरोः एवं सर्वादिशो दैत्यौ जित्वा क्रूरेण कर्मणा निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः इति श्रीमहाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि सुन्दोपसुन्दोपाख्याने नवाधिकशततमोध्याय